राज्यम् निष्कण्टकम् कृत्वा भोक्ष्यसे पुनः भ्रातृभिः सहितो राजन् प्रीतिम् प्राप्स्यसि पुष्कलाम् मत्प्रसादाच्च ते सौख्यमारोग्यम् च भविष्यति ये च सङ्कीर्तयिष्यन्ति लोकेऽपि गतकल्मषाः तेषाम् तुष्टा प्रदास्यामि राज्यमायुर्वकुत्सुतम् प्रवासे नगरे चापि संग्रामे शत्रुसङ्कटे अटव्याम् दुर्गकान्तारे सागरे गहने गिरौ ये स्मरिष्यन्ति माम् राजन् यथाहम् भवता स्मृता न तेषाम् दुर्लभम् किञ्चिदस्मिन् लोके भविष्यति इदम् स्तोत्रवरम् भक्त्या शृणुयाद्वा तस्य सर्वाणि कार्याणि सिद्धिम् यास्यन्ति पाण्डवाः मत्प्रसादाच्च वत्सर्वान् विराटनगरे स्थितान् न प्रज्ञास्यन्ति कुरवो न रामा तन्निवासिनः इत्युक्त्वा वरदा देवीधिष्ठिरमरिन्दमम् रक्षाम् कृत्वा च पाण्डूनाम् तत्रैवान्तरधीयत